ऊरूणां विग्रहे तस्मिन् समागच्छन् बहून् यथा राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे तेषामपरिमेयानां नामधेयानि सर्वशः नशक्यानि शक्यानि समाख्यातुं वर्षाणामयुतैरपि येते तु कीर्तिता मुख्यायैराख्यानमिदं ततम् इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि व्यासाद्युत्पत्तौ त्रिषष्टितमोऽध्यायः